मार्कण्डेयपुराणम् अध्यायम् एट्टिफैव् देवीमाहात्म्यम् अध्यायं फैव् ऋषिरुवाच असुराभ्याम् शचीपतेः त्रैलोक्यं यज्ञभागाश्च हृदा मदबलाश्रयाद तावेव सूर्यदां तद्वदधिकारं तथैन्दवं कौबेरमधयाम्यं च च चक्रादे वरुणस्य च तावेव पवनर्धिच चक्रदुर्वह्निकर्म च अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः हृदाधिकारास्त्रिदशास्त्राभ्यां सर्वे निराकृताः महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां तयास्माकं वरो धत्तो यथा पत्सुस्मृताखिलाः भवदां नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मदिं देव हिमवन्दं नगेश्वरं जग्मुस्तत्र तदो देवीं विष्णुमायां प्रतुष्ठुवुः देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियताप्रणतास्मताम् रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणदां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः नैरृत्यै भूभृदां लक्ष्म्यै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः अधिसौम्याधिरौद्रायै नतास्तस्यै नमो नमः मनोज्जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेधि शब्दिदा नमस्तस्यै नमस्तस्यै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 नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूदेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु नीतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः इन्द्रियाणामधिष्ठात्रीभूतानां चाखिलेषु या भूतेषु सददं तस्यै व्याप्तिदेव्यै नमो नमः चितिरूपेण या कृस्त्रमेदद्व्याप्यस्थिता जगद नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः स्तुदा पूर्वम अभिष्ट तथा सुरेन्द्रेण दिनेषु सेविदा करोदु सा न शुभहेदुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः या साम्प्रतं चोद्धत दैत्यतापि तैरस्माभिरीशा च सुरैर्नमस्यदे या च स्मृता तत्क्षणमेव सर्वापदो भक्तिविनम्रमूर्तिभिः ऋषिरुवाच एवं स्तवादियुक्तानां देवानां तत्र पार्वती स्थादुमभ्याययौतो ये जाह्नव्या नृपनन्दना सा ब्रवीतान् सुरान् शुभ्रूर्भवद्भिः स्तूयतेऽत्र स्तोत्रं ममैतत्क्रियते देवै देवैः समेतैः समरे निशुम्भेन पराजितैः शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका कौशिकीदि समस्तेषु ततो लोकेषु गीयते तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती कालिके दिसमाख्यादा किमाचल कृताश्रया ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरं ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ताभ्यां शुम्भाय चाख्यादा अतीव सुमनोहरा काप्यास्ते स्त्रीमहाराज भासयन्ती हिमाचलं नैव तादृक्वचिद्रूपं दृष्टं केनचिदुत्तमं ज्ञायदां काप्यसौ देवी गृह्यतां चासुरेश्वरा स्त्रीरत्नमती चार्वङ्गी द्योदयन्ती दिशस्त्विषा साधु दैत्येन्द्र साम्भवान् द्रष्टुमर्हति यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो त्रैलोक्ये समस्तानि साम्प्रतं भान्धिते गृहे ऐरावदसमानिधो गजरत्नं पारिजाद पुरन्दराद पारिजाततरुश्चायं श्रवाहयः। विमानं हंससंयुक्त मेधतिष्ठति तेङ्गणे रत्नभूतमिहानीतं यदा सीद्वेधसोऽद्भुतं निधिरेषपद्मसमानीतो धनेश्वराद् किञ्चल्किनीं ददौ चाब्धिर्मालामम्लानपङ्गजां छत्रं ते वारुणं काञ्चनस्त्रावितिष्ठति तथा यंस्यन्तनवरो यः पुरासीत्प्रजापतेः मृत्योरुत्क्रान्तिता नाम शक्तिरीशत्वया हृदा पाशः सलिलराजस्य भ्रातुस्तव वह्निरपि ददौतुभ्यमग्नि शौचे च वासी एवं दैत्येन्द्ररत्नानि समस्तान्याहृदानि ते स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ऋषिरुवाच निशम्ये दिवज शुम्भदधा चण्डमुण्डयोः प्रेषयामास सुग्रीवं दूतं देव्या महासुरः शुम्भ उवाच यदि चेति जवक्तव्या सा गत्वा वचनान् मम यथा चाभ्येदि सम्प्रीत्या तथा कार्यं त्वया लघु स यत्रास्ते शैलोद्धेशेति दिशोभने तां च देवीं ततः प्राहश्लक्ष्णं मधुरया दूद उवाच देवि दैत्येश्वरशुम्भस्त्रैलोक्ये परमेश्वरः दूदोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः अव्याहदाज्ञसर्वासु यः सदा देवयोनिषु निर्जिदाखिलदैत्यारिसयदाः शृणुष्व तद् मम त्रैलोक्यमखिलं मम देवावशानुगाः यज्ञभागानखं सर्वानुपाश्नामि पृथक् पृथक् त्रैलोक्येवरत्नानि मम वश्यान्यशेषतः तथैव गजरत्नं च कृत्वा देवेन्द्रवाहनम् क्षीरोदमदनोद्भूतमश्वरत्नं ममामरैः उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितं यानि चान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे सा त्वमस्मानुपागच्छ यदो रत्नभुजो वयं मां वा ममानुजं वाभि निशुम्भमुरुविक्रमं भज त्वं चञ्चलापाङ्गि रत्नभूदासि वै परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहाद् एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रजा ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवदी भद्रा ययेदं धार्यते दे जगदेव्युवाच सत्यमुक्तत्वया नात्रमिध्या किञ्चित्त्वयोऽदिदं त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापितादृशः किं त्वत्र यत्प्रतिज्ञादं मिथ्या तत् क्रियते कथं श्रूयतामल्पबुद्धित्वात्प्रतिज्ञाया कृता पुरा यो माम जयदि जयधि संग्रो मे दर्प व्यपोहदी वो मे प्रतिबलो लोके सर्ता भविष्य सदागछत शुंभ निशुंभो वहासुर मिवा किं चीरे पागृृृहै मे लघु दूध उवाच अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रदः त्रैलोक्ये कः दग्रे तिष्ठेदग्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानां सर्वे देवानवैयुधि तिष्ठन्ति सम्मुखे देवि किं पुनस्त्री त्वमेकीका इंद्राद सकला देवा स्तुषा संयुगे शुंभादीना कथम तत्री प्रयासी संखम सायोक्ता पाशं शुंभ निशुंभ केशाकर्षण निर्धुतगौरवागमिष्यसी देव्युवाच एवमेतद्बलि शुम्भो निशुम्भश्चादिवीर्यवान् किं करोमि प्रतिज्ञामे यदनालोचिता पुरा सत्त्वङ्गमयोक्तं ते यदेतत्सर्वमादृतः तदा चक्षुरसुरेन्द्राय स च युक्तं करोतु तत् इति श्रीमार्कण्डेयपुराणे स वर्णिके मन्वंद देंी महात्म्ये पंचाशीद्याय ओ